अथर्वेदे चतुर्थाष्टके पञ्चमोऽध्यायः ॐ त्वम् हिक्षयितपद्यशोऽग्ने मित्रो न पत्यसे त्वम् विचर्षणेश्वसो पुष्टिर्न पुष्यसि त्वाम् हिष्माचर्षणयो यज्ञेऽभिर्गेर्भिरेव त्वाम् वाचीयात्यभृकोरजस्तोर्विश्वचर्षणिः सजोष स्वाधिवो नरोधिनस्य केतुमिन्धते यद्धस्य मानुषो जनः सुम् नाजुर्जुक्वे अध्वरे रुधद्यस्ते सुदानवेधिरामर्थः शशमते ऊतीशमृहतोधियोद्विषोऽ अम्भो नतरति समिधायस्त आहुतिम् निशितिम् मर्त्योनशत् वयावन्तम् सपुष्यति क्षयमग्नेशताजुषम् त्वेषस्ते धूमरण्वति दिविशम् शुक्रारः सूरो न हि ज्युता त्वम् कृपावाहावकरोचसे अथा हि विक्ष्वीड्योऽसि प्रियो नो अतिथिः रण्वः पुरीवयोजोर्यः कृत्वा हि द्रोणेः अज्यसे परिज्ञ स्वधागयोद्योनः पार्यः शिशोः त्वन्त्यचिदच्युताग्नेः पशुर्नयवसे धामा हयत्ते अजरमनाः वृच्छन्ति शिक्वसः वेशिष्यध्वरी यतामग्नेयोजने विशाम् समृथो विश्वते कृणुजुषस्वहंयमङ्गिरः अवच्छा नो मित्रमहो देवदेवानग्धेवोजः सुमतिम् रोदस्योः वीः स्वस्तिम् सुक्षितिम् दिवो नृन्विषो अम्मा अंसि दुरितातरे मतातरे मतवापसातरे मग् सक्षे शदृतपर्वतेजा उरुज्योतिर्नशते ते भजुष्टे यम् त्वम् मित्रेण वरुणः सजोषादेवासित्यजसामर्थमह्माह गीते यज्ञेभिः शशपेशमेभिररुधद्वा राजाग्नजे ददाशा एवाच नतम् यशसामजुष्टिर्नाम् होमर्तन्नशतेन प्रतृप्तिः सूरो न यस्य दृशतिररेपा भीमायतेति शुचतस्त आधीः एष स्वतः श्रुरुधो नाय भक्तोः पुत्रा चिद्रण्डो वसतिर्वरेताः दिग्मञ्चिदेव महिमर्पो अस्य भसदश्वो नयमसान आसा वियेऽहमानः चित्रध्वजतिरनतिर्यो अक्तोर्वेर्नदृषद्वा रघुपद्मजम्भाः स ए इं रेभो न प्रतिवस्तरुस्रा शोतिषा रारपीतिमित्रमहाः प्रदक्तञ एषो यो दि भादृ न मद्योरुषो यो दि भादृन घृणानयो ध्रजसा पत्मनायन्नारोदश्रीवसुनादम् सुपत्नी धायो गर्भायो युज्येभिरर्कैर्विद्युन्नतविद्योत्स्वेभिः सुष्मैः शर्धो वायो मरुतान्ततक्षर्भुर्न त्वेषो रभसानो अद्य ऊर यथा आहोतर्मनुषो देवता यज्ञेभिः सो नो सहसो एवानो अद्य समनासमानानुसन्नग्न उषतो यक्षिदेवान् स नो विभावा चक्षणिर्नवस्तो रग्निर्वन्दानुवेद्यश्च नोधात् विश्वायुर्यो अमृतो मर्त्येषु शर्भुद्भूततिथिर्जातवेदाः द्यावो न यस्य पलयन्त्यभ्वम्भासां शिवस्ते सूर्यो न शुक्रः त्यजनः पापकोष्णस्य चिच्छिष्ण सत्पूर्व्याणि वद्माहि सो नो अस्यद्मसद्वाचक्रे अग्निर्जनुषाज्मान्नम् सत्त्वम् न ऊर्जस न ऊर्जन्धराजे भजेन वृकेक्षेष्यन्तः तुर्यामयस्प आतिशामरा आतीर्त्यो नः कृतः पततः परिहृत् आसूर्यो न भा अनुमद्भिरर्कैरग्ने ततन्थरोदसेविभासा चित्रो न यत्परितमाम् स्यक्त शोचिशापत्मन्मौषिजो नदीयन् अराम्भ्यमन्द्रतमर्कशोकैर्ववृमहे इन्द्रन्नत्वा शमसा देवताः वायुम् वृणन्ति राधसा नृतमाः नोनो अग्नेभृकेभिः स्वस्ति वेशिराजः पथिभिः पश्यं माह तासूरिभ्यो उभेवः सोनुम् सह सोऽयुवानवद्रोघवाचम् मतिहर्यविष्ठम् य इन्मति द्रविणानि प्रचेता विश्ववाहाराणि पुरुवारोह अध्रुक् उपेसोऽपुर्वणीकहोतर्दोषावस्थोरेलिरे जिज्ञासः क्षामे एव विश्वा भुवनानि यस्मिन् शंसौभगानि दधिरेपा आवके त्वम् वीक्षु प्रतिभ सीद आशुवृत्ता रथीरभवो वार्याणाम् अत इनो शिविधते चिकित्पोऽनुषग्जात वेदो वसूनि यो नः समृत्यो अभिदासदग्नेजो अन्तरो मित्रमहो मनुष्यात् तमदरेभिर्वृषभिस्तपस्वैस्तपात पिष्ठतपसा तपस्वान् यस्ते यज्ञेन समिधाय उक्तैरर्केभिः सो नो सहसो ददाशत समर्त्ये समृतप्रते एता राजाद्यम्नेन श्रवसा विभाति स तत्कृधेजितस्तूयमग्ने स्पृधो भारस्वसहसा सहस्वान् यच्छस्य सेद्युभिरक्तो अश्यामतम् काममग्नेतभोते अश्यामरयिम् रजिवः सुवीरम् अश्यामवाजमभिवाजयन्तोऽश्यामद्विम् न मदराचरन्ते प्रणम्यसा सहसः सोऽनुवच्छायज्ञेन गातुमव मा इच्छमानः हृश्चद्वनम् कृष्णयामम् रुषन्तम् वीते होतारम् दिव्यञ्जिगाति सश्वितानस्तन्यदूरोचनस्था अजरेधिर्ना न तद्धिर्यविष्ठः यः पा आवकः पुरुतमः पुरोणि पृथोऽन्यग्निरनुयाति भर्मन् विधे विश्वग्वातजूतासो अग्ने भामाः सश्रुचे शुचयश्चरन्ति तुविं रक्षासो दिव्यानमग्वापना वनन्ति ये ते शुक्रा सश्रुचयः शुचिष्मः क्षामपन्ति विशिता सो अश्वाः अथ भ्रमस्त उर्विया विधाति यातयमानो अधिसानुपृश्नेः अथ जिह्वापा आपति त्रिप्रकृष्णो गोषुयुथो नाशनिःसृजाना शूरस्येव प्रसितिः क्षातिरग्नेर्दुर्वर्तुर्भि मोदयते मनानानि भानुना पार्थिवारिज्रया हंसि महस्फोदस्य धृषता सपाधस्वापभयासहोभिस्पृतो मनुष्यन् वनुषो निजोर्व सचित्रचित्रम् चितयन्तमस्मे चित्रक्षत्रचित्रतमम् रजोधाम् चन्द्रम् रजिम् पुरुवीरम् रहन्तम् मूर्धानम् दिवो अरतिम् पृथिव्या वै ईश्वानरमृतः जातमग्निम् कविम् सम्राजमतिथिञ्जनानामासन्नापात्रिम् जनयन्त देवाः नाभी यज्ञानाम् सदनम् रजीणाम् महामाहावमभिसन्नवन्त वैश्वानरम् रक्षमद्धराणाः यज्ञस्य केतुञ्जनयन्त देवाः त्वद्विप्रो ओजायते वार्जग्ने त्वद्वीरासो अभिमातिशाहाः वैश्वानरत्वमस्मासु धेहि वसूरिराजन्स्रभजाय्याणि त्वाम् विश्वे अमृतजायमानम् शिशुन्न देवा अभिसन्नमन्ते तव क्रतुभिरमृतत्वमाजन् वैश्वानरयत्पित्रो रदेः वैश्वानरतपतानि रतानि महान्यग्नेन किरातधर्ष यज्जायमानः पित्रोरुपस्थे विन्दः केतुम् मयुनेष्मह्ना वैश्वानरस्य विमितानि चक्षसा सानो निवो अमृतस्य केतुनाः तस्येतु विश्वाभुवनाधिमूर्धनि वया इव रुरुः सप्तविसृहाः विजोरदांस्यमिमीत सुप्रदुर्वैश्वानरो वि दिवोरोचला कविः पर्यो विश्वा भुवनानि पप्रथेदब्धो गोपा अमृतस्य रक्षिता वृक्षस्य पृष्णो अरुषस्य नु सहप्रणुवोचं विदथा जातवेजसः वैश्वानरायमतिर्नव्यसेषु चिः सोम इव भवते चारुरग्न स जायमानः परमेव्यो मनिव्रतान्यग्निर्वृतपा अलक्षत या अन्तरिक्षममित सुक्रदुर्गो वैश्वानरो महिनानाकमस्पृशत यस्तभ्नात्रोदसी मित्रो अद्भुतोऽन्तर्वावदकृणोर्ज्योतिषातमाः विचर्मणीवधिषणेन वर्तयद्वैश्वानरो विश्वमधत्तवृष्ण्यम् आ अवामुपस्थे महिषा गृह्णविशो राजानमुपदस्थुररुग्मियम् आदूतो अग्निमभरद्विवस्पतो वैश्वाधरम् माधरिष्वाः परावताः युगे युगे विदध्यम् गृणद्भ्योऽग्नेरलिम् यशसन्धेहिलव्यसीन् अव्येव राजन्नखशम् समचलनीचानिकश्च परिनन्द तेजसा अस्माकमग्ने भगवत्सुधारजानामिक्षत्रमदरम् सुबीर्यम् भजञ्जलेमशतिनम् सहस्रिणम् वैश्वानरवाजमग्ने तभोतिभिः अलब्धेभिस्तवकोपाभिरिष्टेऽस्माकम् वाहित्रिश्रदस्थसूरेण रक्षा च नो ददुषाम् शर्धो अग्ने वैश्वानरप्रचतारीस्तवानः अहश्च कृष्णमहार्जुनम् च विवर्ते रजसे वेद्याभिः वैश्वा नरो जायमानो न राजा वातिरज्योतिशास्तमांसि नाहन्तन्तुन्न बिजाः नान्योतुन्नयम् वयन्ति समरेतमानाः कस्य स्वित्पुत्र इह वक्तानि परोपधात्यपरेण पित्रा स वित्तम् तुम् स विजादात्यो तुम् स वक्ता वदाति य गोपा अपश्चरन् परो अन्ये न पश्यन् अयम् होता प्रथमः पश्यते मिरञ्ज्योतिरमृतम् मर्त्येश अयम् स यज्ञे ध्रुव आनि ध्रुवं ज्योतिर्निहितम् दृशज एवम् मनोजमिष्ठम् पतयत्स्वन्दः विश्वे देवाः समनसः स के एता एकम् क्रतुमभिवियन्ति साधु विमे कर्णापतयतोऽपि चक्षुर्वी ईलम् ज्योतिर्हृदजाहितम् विमे मनश्चरति गौराधेः किम् स्विद्वक्ष्यामि किमुनो मरिष्ये विश्वे देवा अनमस्यन्धियानास्तामग्नेतमसि तस्थिवांसम् वैश्वानरोऽवतूतये नो मर्त्योऽवतूतये नः पुरो वो मन्द्रम् दिव्यम् सुवृत्तिम् प्रयति यज्ञे अग्निमध्वरे दधिग्ध्वम् पुर उक्थेभिः सहिनो विभावाः स्वध्वराकरति जातवेदाः तरोद्युमः पूर्वीकहोतरग्ने अग्निधानः स्तोमयमस्मै मम ते वशुषङ्कृतन्न शुचिमतयः पवन्ते पीपायसश्रवसामर्थ्येषु यो अग्नये ददा शविप्र उक्थये चित्राभिस्तभूतिभिश्चित्रशोभृजस्य साता गोमतो दधाति आयः पप्रोजायमान उर्वीदूरे दृशा ऊर्ण्यायास्तिरः शोतिषा ददृशे पापकः नो नश्चित्रम् पुरुवाजाभिरोति अग्नेरजिम् अघवद्भ्यश्च धेहि ये राधसा श्रवसा चात्यन्यान् सुवीर्येभिश्चाभि सन्ति जनान् इमै यज्ञम् च नोऽ अग्न उशन्यन्त आसानो जुहुते हविष्मान् भरद्वाजेषु दरिशेषु वृत्तिमभिर्वाजस्य गद्यस्य सातौ विद्वेषाम् सेतुहि वर्धयेणाम् मदेमशतहिमाः सुवीराः यजी यजीयानग्ने बाधो अमरुतान्न प्रयुक्ते आनोः मित्रावरुणाना सत्याद्यावाहोत्राय पृथिवीवृत्त्याः तुम् होता मन्द्रतमो नो अध्रुगन्तर्देवोऽपि तथा मर्त्येषु पावकया जुह्वा आ वह्निरासाग्नेयजस्व तन्वा अन्तवः स्वा धन्याः चिद्धिते धिषणावष्टिप्रदेवाञ्जन्म कृणते वेपिष्ठो अङ्गिरसा अदिद्युतत्स्वपाको विभावाज्ञेयजस्वरोदसी पुरोची आयुन्नयन् नमसा रातहौया अञ्जन्त्रिष्वप्रयसम्पञ्च जनाः वृन्दे हयन् नमसा बर्हि लग्नावया विश्वभृतवती सुवृत्तिः अम्यक्षि सद्मसदने पृथिव्या अश्रारयज्ञसूर्येन चक्षोः दशस्या नः पुणीकहोतर्देवेऽभिरग्ने अग्निभिरिधानः राजः सूनु सहसो वावसान अतिस्रसेमभृजलन्दाह्माह मध्ये होता दुरोणे बर्हि शौराळग्निस्तोदस्य रोदसीयजध्यै अयम् स सूनुः सहसहृता वा दूरात् शौर्यो न आयस्मिन्त्वे स्वपाके यजत्रयक्षद्राजन् सर्वता ते भनुद्यौ त्रिषतस्तस्तषोरजम्भो अहं व्यामगादिमानुषा यजध्यै तेऽजिष्ठायस्या रतिर्वनेराट्तोदो अध्वन्नवृधसानो अद्यौत अद्रोगो नद्रभिता चेतदिमन्नवर्त्यो भक्त्र ओषधीषु जातवेलाः धुरन्नो वन्वङ्गत्वा राोस्रह्दारजाय यज्ञैः अधस्मास्यपनयम् तिभासोरुधाय तक्षतनुयाति पृथ्वी सद्यो यः स्पन्द्रो विशितोथवी या दृढो नतायुरतिथन्माराट् सत्पन्नो अर्वन्निदाया विश्वेभिरग्ने अग्निभिरिधानः वेषि राजोवियासि दुच्छुनामदेमशतहिमाः सुवीराः त्वद्विश्वासुभगसौभगान्यग्नेऽभियन्ति वनिनो न भयाः सृष्टिरजुर्वादो वृत्रतोर्ये दिवो वृष्टिरेड्यो रीतिरपा म् भगोदाहितविषये परिज्ञेमक्षयसि भस्मवर्चाः अग्नेः मित्रो न बृहतरुतस्यास्य क्षत्ता वामस्य देवभूरेः स सत्पतिः शवसा हन्ति वृत्रमग्ने विप्रो विपणेर्भक्तिराजम् यन्तम् प्रचेत रतजातराजा सजोषा नत्रापाम् हिनोषि यस्ते एषु नो सहसो गीर्भिरुक्तैर्यज्ञैर्मर्तो निशितिम् भेद्यानट विश्वंसते एव प्रतिवारमग्ने धत्ते धान्या अम्पत्यते वसंयैः का निर्भ्यवासौ श्रमसा सुवीराग्ने सो नो सहसः पुष्यसे धाः कृणोषि यच्छवसा भूरि पशोपयो वृका आजारजे च सुरजे मद्मासो नो सहसो नोभिः आया अग्ने एतो कन्दनयम् वाजिनोदाः विश्वाभिर्गेर्भिरभिपूर्ति भे न श्याम् मदेशतहिमाः सुवीराः अग्नायो मर्त्योदुबोधिजम् जुजोषधीतिभिः भसन्नुष प्रपूर्य इषम्बुरीता वसे अग्निरिद्धि प्रचेता अग्निर्वेदस्तमर्षीः अग्निम् होता रमीलते यज्ञेषु मनुषो विशाः नानाह्या अग्नेऽवसे स्पर्धम् राजो राजोऽर्यः तूर्वन्तो दस्युमायवो व्रतैः सीक्षन्तो अव्रतम् अग्निरप्सामृतेशहम् वीरङ्गदाति सत्पतिम् यस्यत्र सन् दिशवसः सञ्चक्षिषत्रवो भिया अग्निर्हि विद्मनानिदो देवो वर्तमुरुष्यति सहा वायस्यावृतो रजिर्वाजेष्वृतः अर्चा नो मित्रमहो देवदेवानग्नेवोचः सुमतिम् रोदस्योः वीः स्वस्तिम् सुक्षितिम् दिवोरम्हादुरितातरे मतातरे मतवाप सातरे मम इममूषुभो अतिशिमुषर्बुधम् विश्वासाम् विषाम् प्रतिभञ्जसे गिरा वेते दिवो जनुषाकच्चिदाशुचिर्जोक्षिदत्तिगर्भो यदच्युतम् मित्रन्नयम् सुधितम् ऋगबोधुर्वनस्पता वीड्यमूर्ध्वशोऽषम् सप्तम् सुप्रेतो भीतहं ये अद्भुतप्रशस्तिभिर्म हयसे सम् दक्षस्या वृको वृथो भूरर्यः परस्यान्तरस्य तरुषः प्रायः सोऽ सोमर्त्येष्पाच्छर्देर्यच्छीरहं याय सप्रथो भरद्वाजाय सप्रथाः युतानम्बो अतिथिम् स्वर्णरमग्निम् होतारम् मनुषस्वध्वरम् विप्रन्नद्युक्षवचसं सुभृक्तिभिर्हव्यवाहमरतिम् देवमृञ्जसे पावकजायश्चितयम् या कृपाक्षामृलु च उषसो न भानुना तोर्वन्नयामन्नेतशस्य नोरण आयो घृणेन ततृषाणो अजराः अग्निमग्निम्बः समिधाः दुवस्य तप्रियम् प्रियम् वो अतिथिम् गृणे शणी विवासत देवो देवे शुभन देहि देवो देवे शुभन देहि समिद्धभक्तिम् समिधा गिरारणे शुचिम् बाभकम् पुरो अध्वरे ध्रुवम् विप्रम् होतारम् पुरुवारमद्रुहम् कविम् सुम्नैरीमहे जातवेदसम् त्वाम् दूतमग्ने अमृतम् युगे युगे हव्यवाहम् दधिरे पाजुमीड्यम् देवासश्च मर्तासश्च जागृमिम् विभुम् विभूषन्नग्न उपयाङ्गनुम् रदा दूतो देवानाम् रजसे समीयसे यत्ते भीतिम् सुमतिमा वृणे महेधस्मानस्त्रिवरोधः शिवो भव तम् सुप्रतीकम् सुदृशम् स्वम् चमविद्वांसो विदुष्टरम् स प्रेम स यक्षद्विश्वायुनानि विद्वान्प्रहव्यमग्निरमृते सुवोचत् कमज्ञेपास्युततम् पिपर्षि यस्तानट्कवजे शूरधीतिम् यज्ञस्य वा निशितिम् बोधितिम् वातमित्प्रणक्षिशपसोतराजा त्वमज्ञेवनुष्यतो निपाहि त्वमुनः सहसापन्नपद्यात् अग्निर्होता गृहपतिः स राजा विश्वाः वेदजनिमा जातवेदाः देवानाः मुतयो मर्त्या नाङ्ग्यजिष्ठः स मृतावाः मृता वा अग्ने यदद्य विशो अध्वरस्य होतः पावकशो चे हि यज्वा वृता यजासि अद्य अभिप्रया हंसि सुधितानि हि क्षो नित्वादसी यजध्यै अवानो मघवन्वाजसातावग्ने विश्वानि दुरितातरे मतातरे मत पावसातरे म अग्ने विश्वेभिस्वनि कते वैरूर्णामन्त्रम् प्रथमस्यीदयोनिम् कुलायिनम् कृतवन्तम् समित्रे यज्ञन्न यजमानाय साधु इममुत्यमथर्ववदग्निम् मन्थन्ति मेधसाः यमम् कूयन्तमानयन्नमो रंश्याव्याभ्यः जलिष्वा देववीतये सर्वदा स्वस्तये आदेवान्वक्ष्यमृतामृतावृथो यज्ञम् देवेषु विस्पृशः वयमुत्त्वा गृहपते जनानामग्ने अकर्म समिधा अर्थूरिरोगार्हपत्यानि सन्तु तिज्ञेन नस्तेजसा संशिशाधि त्वमग्ने यज्ञानाम् होता विश्वेषाम् हितः देवे बर्मानुषेजने स नो मन्द्राभिरध्वरे जिह्वाभिर्यजामहः आदेवान्वक्षि यक्षिता वेऽर्था हि वेदो अध्वनः पथश्च देवाञ्जसा अग्ने यज्ञेषु सुक्रतो मीळे अधद्भिता भरतो माजभिश्नम् ईजे यज्ञेषु यज्ञयम् त्वमिमापार्या पुरुदिवो दासाय सुन्भते भरद्वाजायताशुषे त्वम् दूतो अमर्त्य आवहादै व्यञ्जनम् शृण्वन् विप्रस्य सुष्ठुतिम् त्वामग्ने स्वाध्यो ओमर्तासो देववीतये तवप्रयक्ष देवमी ईळते तव प्रयक्षिसन्दृशमुत क्रतुम् सुदानवः विश्वेजुषन्तकामिनाः त्वम् होतामनुरुहितो वह्निरासा अग्ने यक्षि दिवो विशाः अग्नाया आहि वीतये गृणानो हव्यदातये निहोता सत्सि बर्हिषि तन्त्वा समिद्भिरङ्गिरोघृतेन वर्धयामसि बृहच्छोचायविष्ठ्या सरः पृथुः श्रवायमच्छा देवविवाससि बृहदग्ने सुवेर्यं त्वामग्ने पुष्करा दध्यथर्वा निरमन्थत मूर्ध्वा विश्वस्य वागताः तमुत्वा दध्यम् ऋषिपुत्र हीधे अथर्वणः कृत्रहणम् पुरन्दरम् तमुत्वापाच्छो वृषासने तस्योहन्तमम् धनञ्जयम् रणे रणे ये ह्यो शुभ्रवाणितेऽन इच्छेतरागिराः एभिर्वर्धा स इन्दुभिः यत्र क्वचते मनो दक्षम् दधस उत्तरम् तत्रासदः कृणवसे न हि ते वसो अथा दुवो वनवसे आग्निरगामि भारतो वृत्रः पुरुचेतनः दिवो दासस्य सत्पतिः स हि विश्वादिपार्थिवारयिन्दाशन्महित्वना वन्वन्नवातो अस्त्रुतः स प्रत्नवन्नवी यसाग्ने द्युम्नेन संयता बृहत्ततन्थभानुना रमस्रखायो अग्नये स्तोमय्यज्ञम् च धृष्णुया स हि यो मानुषा युगासीदद्धोता कविक्रतुः दूतश्च हव्यवाहनः तारायानाशुचिमूलतादित्यान्मारुतम् गणम् वसो यक्षीह रोदसी वस्वेते अद्य सन्दृष्टिरिषयते मर्त्याय ऊर्जोऽनपादमृतस्य कृतारा अस्तु श्रेष्ठोऽद्यत्वा वन्वन् मर्ता आनाशसुभक्तिम् ते ते अग्ने त्वोदाशयन्तो विश्वमायोः तरन्तो अर्यो अरातिर्वन्वन्तो अर्यो अरातीः अग्निस्तिग्नेन शोचिशाया सद्विश्वत्रिणम् अग्निर्नो वनते रजिम् सुवीरम् रजिमापरजातवेदोऽपि चर्षणे दहि रक्षांसि सुक्रतो तन्नः पाह्यं हसो जातवेदो अघायतः रक्षाणो ब्रह्मणस्कवे यो नो अग्ने दुरे महामर्तो बधा यदा सति तस्मान्नः हसः त्वम् तन् देव जिह्वयापरिपादस्व मर्तो यो नो भरद्वाजाय स अग्ने परेण जम्बसो अग्निर्वृत्राणि जङ्घनद्रविणस्य रुपिपन्ययाः सविद्धः शुक्र आहुतः गर्भे मातुः पितुः पिता विद्युतानो अक्षरे सीदन् नृतस्य योनिवा ब्रह्म अग्ने यद्येदयद्दि उपत्वारण्वसन्दृशम् प्रयस्वन्तः सहस्कृता अग्नेः ससृज्वहे गिराः उपच्छायामिलक्षणेरगन्वशर्म ते भजम् अग्नेहिरण्यसन्दृशः य उग्रहिवशर्यः जिग्मशृम् गोनवंसकः अग्ने पुरोरुरोचिथ आयम् हस्तेन खादिनम् शिशुम् जातन्न बिभ्रति विशाभग्निम् स्वध्वरम् प्रदेवम् देववे एतये भरतावसुवित्तमम् आस्वेयो नौ निषीदतु आजातम् जातवेदसि प्रियं शिशीतातिथिम् स्यो न आग्रहपतिम् अग्ने युक्ष्वाहियेतवाश्वासो देवसाधवाः अरम् वहन्ति मन्यवे अच्छानो नो जाह्यावहाभिप्रया हंसि वीतये आदेवाञ्छोमपीतये उदग्ने भारतद्युमदजश्रेणत विद्युतत् शोचा विभाष्यजर वीतीयो देवम् मर्तोभस्येदग्निमीहीडीताध्वरे हविष्मान् होतारम् सत्यजम् रोदस्योरुत्तानहस्तो नमसा विभासेत् आ ते अग्नरुचा हविर्हृदा दष्टम् भरामसि ते ते भवन्तो क्षणर्षभासो वशा उदा अग्निम् देवासो अग्र्यमिन्धते वृत्रहन्तमम् येनावसून्याभृता दृळ्ळारक्षाम् दिवाजिना इति चतुर्थाष्टके पञ्चमोऽध्यायः